ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं ट्वेण्टि एय्ट् अमावास्याश्राद्धे पितृविचयो नः ऋषिरुवाच अगात् कथममावास्यां मासि मासि दिवं नृपः ऐ लव् पुरूरवासूद कथं वा तर्पयत्पितॄन् शूद उवाच तस्य प्रवक्ष्यामि प्रभावं विप्रभावं शांशपायने अैलस्यादित्यसंयोगं सोमस्य च महात्मनः अधः सारमयस्येन्दोः पक्षयोः शुक्लकृष्णयोः ह्रासवृद्धि पितृमदःपित्र्यस्य च विनिर्णयम् सोमा चैव मृतप्राप्तिं पितॄणां तर्पणं तथा काव्याग्निष्वात्तसौम्यानां पितॄणाञ्चैव दर्शनं यथा पुरुरवाश्चैव तर्पयामास वै पितॄन् एतत् सर्वं प्रवक्ष्यामि पर्वाणि च यथा क्रमम् यदा तु चन्द्रसूर्यौ वै नक्षत्रेण समागतौ अमावस्यां निवसद यगरात्रैकमण्डलौ स गच्छति तदा द्रष्टुं दिवाकरनिशाकरौ अमावस्याममावास्यां मादामहपितामहौ अभिवाद्यसदौ तत्र कालापेक्षप्रदीक्षते प्रदीक्षदे सोमा सोमातु पित्रार्थं तु परिश्रवान् विद्वान् मा सश्राद्धचिकीर्षया उपास्ते पितृमन्तं तं सोमं दिवि समास्थितः द्विलवाम् कुहमात्रां च ते उभेदुविचार्यसः सिनीवालीप्रमाणेभ्यसिनीवालीमुपास्यसः कुहोमात्रकलां चैव ज्ञात्वोपास्ते कुहुं तथा स तदा सतदा न कालापेक्षप्रपश्यति सुधामृतं तत्सो मा श्रवद्वै मासतृप्तये दशभिः पञ्चभिश्चैव सुधामृतपरिस्रवैः कृष्णपक्षे भुजां प्रीत्या दह्यमानां तथां शुभिः सद्य प्रशरता तौम्य मधुना तो सह निस्त्र पक्षु पित्र्यधिना दिवसा जाइन्द्र तस्तर्पयामा स सौम्यान् बर्हिषधः काव्यानग्निष्वात्तांस्तथैव च ऋतमग्निस्तु यः आत्तवाह्यर्धमासाख्याः पितरो ह्यर्तुसूनवः हृतवः पिता महामासा अयनाह्यब्दसूनवः प्रपितामहास्तु वै देवाः पञ्चाब्दा ब्रह्मणः सुताः सौम्यास्तु सोमजाज्ञेया काव्याज्ञेया कवेः सुताः उपहृदा सोमजा सो सोमपास्मृताः आज्यपास्तु स्मृता काव्यास्ति स्रस्ताः काव्या बर्हिषदश्चैव अग्निष्वात्ताश्च तास्त्रिधा गृहस्थाय यज्वान ऋतु बर्हिषदो काव्यापञ्चाब्दास्तान्निबोधत तेषां संवत्सरो ह्यग्निषु यस्तु परिवत्सरः काव्य इड्वसरः प्रोक्तो वायुश्चैवानुवत्सरः रुद्रस्तु वत्सरस्तेषाम् पञ्चाब्दास्ते युगात्मकाः काव्याश्चैवोष्णपाश्चैव दिवा कीर्त्याश्च ते स्मृताः येदे ते पिबंत्यमावास्य मासि मासि सुधां दिवि तां स्तेन तर्पयामास यावदासीत् पुरुरवाः यस्मात् प्रस्रवदे सोमान्मासि तस्मात् सुधा मृदं तद्वैपि सोमपायिनां एवं तदमृदं सौम्यं सुधा कृष्णपक्षे यथा वेन्दोक्कलाः पञ्चदशक्रमाद पिबं त्यम्बुमयं देवास्त्रयस्त्रिंशत्तु चन्दनाः पीत्वार्धमासं गच्छन्ति चतुर्दश्यां सुधामृतम् इत्येवं पीयमानैस्तु देवैः सर्वैर्निशाकरः समागच्छत्यमावस्यां भागे पञ्चदशे स्थितः सुषुम्नाप्यायिदं चैव क्षमा पिबन्दिद्विलवं कालं पिदरस्ते पी सुधामृतं पीदक्षयं तदसोमं सूर्योऽसावेकरश्मिना आप्याय यत् सुषुम्नादः पुनस्तान् सोमपायिनः निःशेषायां कलायां तु सोममाप्याय यत्पुनः सुषुम्नाप्यायमानस्य भागं भागमः क्रमाद् कलाः क्षीयन्दिता कृष्णा शुक्ला एवं सूर्यस्य वीर्येण चन्द्रस्याप्याहिता तनुः दृश्यदे पौर्णमास्यां वै शुक्लसम्पूर्णमण्डलः सोमस्य पक्षयो शुक्लकृष्णयोः इत्येवं पितृमान् सोम स्मृद क्रान्तः पञ्चदशैः सार्धं सुधामृतपरिश्रवैः अधः पर्वाणि वक्ष्यामि पर्वणां सन्धयश्च ये यदा यथा पर्वाणि शुवेण्वोर्भवन्त्युद तदार्थमासि पर्वाणि शुक्लकृष्णानि चैव पूर्णामावस्ययोर्भेदौ ग्रन्थयः सन्धयश्च वै अर्थमासं सा याह्नेह्यनुमत्यादौ कालोद्विलव उच्यते लवौ द्वावेवराकायां कालो ज्ञेयो पराक्ष्णकः प्रतिपत्कृष्णपक्षस्य काले तीरे पराष्णके सा ह्याह्ने प्रतिपन्ने च पौर्णमासिकः व्यदीपादे लेखार्थेदु सूर्ये लेखार्थे दु युगान्तरे युगान्तरोदिदे चैव लेशार्धे शशिनः पौर्णमास्ये व्यदीपादे यदीक्षेदाम् परस्परं यस्मिन् काले समौ स्यादाम् तौ व्यदीपाद एव सः तं कालं दृष्ट्वा सङ्ख्यां तु सर्पति स वैवषट्क्रियाकालसध्यकालं विधीयते पूर्णेन्दोः पूर्णपक्षे तु रात्रिसन्धिश्च पूर्णिमा तदो विरज्यदे न क्रं पौर्णमास्यां निशाकरः यदीक्षेदेव यदीपादे दिवा पूर्णे परस्परं चन्द्रार्कावपराह्नेदु पूर्णात्मानौ दु पूर्णिमा यस्मात्ता मनुमन्यन्ते पितरो दैवतैः सह तस्मादनुमतिर्नाम पूर्णिमा प्रथमा स्मृता अत्यर्थं भ्राजदे यस्माद् व्योम्न्यस्यां वै निशाकरः रञ्जनाच्चैव चन्द्रस्य रागेति कवयो ब्रुवन् अमा वसेदा वृक्षे तु यदा चन्द्रदिवाकरौ रागा पञ्चदशी रात्रिरमावास्या तदस्मृता व्युच्छिद्यतममावास्यां पश्यतस्तौ समागतौ अन्योन्यं चन्द्रसूर्यौ तौ यदा तद्दर्श उच्यते द्वौ द्वौ लवावमावास्या स कालः पर्वसन्धिषु द्व्यक्षरकुहुमात्रश्च पर्वकालास्त्रयस्मृताः नष्टचन्द्रात्वमावस्या या मध्याह्नात् प्रवर्तते दिवसार्धेन रात्र्या च सूर्यं प्राप्यतु चन्द्रमाः सूर्येण सहसा गत्वा प्रातस्तनात् स द्वौ कालौ सङ्गमं चैव मध्याह्ने नियतं रविः प्रतिपच्छुक्लपक्षस्य चन्द्रमा सूर्यमण्डलाद् विमुच्यमानयोर्मध्येत्तयोर्मण्डलयोस्तु वै स तदा ह्याहुदेकालो दर्शस्य दुवशत्क्रिया धृतुमुखं ज्ञेयममावास्यास्य पर्वणः दिवा पर्व क्षमावास्याक्षीणेन्दौ बहुले तु वै तस्माद्दिवाक्षमावास्यां गृह्यते सौ दिवाकरः गृह्यते तु दिवा दिविक्षयाम् कलानामपि चैदासां वृद्धिहान्या जलात्मनः तिथीनां नामधेयानि नाम विद्वद्भित्संज्ञितानि वै दर्शयेदा मधात्मानं सूर्याचन्द्रमसाुभौ निष्क्रामत्यथते नैव क्रमश सूर्यमण्डलाद द्विलवो नमहोरात्रं भास्करं स्पृशदे शशी कालो दर्शस्यदु कालोद्दर्शस्य दुवषट्क्रिया कुहेदि कोकिलेनोक्तो यः यस्मादमावास्या कुः सिनि वाली प्रमाणस्तुक्षेण शेषो निशाकरः आमावस्यां विशत्यर्कसिनी वाली तदस्मृता अनुमत्याश्चराकायासिनी वाल्या कुहं विना ये दासान्द्विलभकालकुः मात्रं चंद्रसूर्य व्यति संग पूिमा प्रतिप्र प्रतिप्येत पर्व द्विम काल कल्योसा मुद्र सुमध्यर्का सोमेवकालकला एवं सशुक्लपक्षे वै रजन्यां पर्वसन्धिषु संपूर्मा मण्डलश्रीमां चन्द्रमा उपरज्यते यस्मादाप्या यदे सोमः पञ्चदश्यां तु पूर्णिमा दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात् तस्मात् कलाः पञ्चदश सोमेनास्य षोडशी तस्मात् सोमस्य भवति पञ्चदश्याप्रपाक्षयः इत्येते दे पितरो देवाः सोमपाः सोमवर्धनाः आर्तवारुतवो ह्यर्धा देवास्तान् भावयन्ति वै अतः पितॄन् प्रवक्ष्यामि मास्राद्धभुजस्तु ये तेषां गतिं सतत्वां च प्राप्तिं श्राद्धस्य चैव हि न मृतानां न पुनरागतिः तपसापि प्रसिद्धेन किं पुनर्मासचक्षुषा अनुदेव दे पितरो लौकिकास्मृताः देवास्सौम्याश्च काव्याश्च अयज्वानोक्ष्यचो निजाः देवास्ते पितर सर्वे देवास्तान्वादयन्त्युत् मनुष्यपितरश्चैव तेभ्योऽन्ये लौकिका स्मृताः पितापितामहश्चापि तथा यः प्रपितामहः यज्वानो ये दुःसामेन सोमवन्तस्तु ते स्मृताः ये यज्वानो हविर्यज्ञे ते वै अग्निष्वात्ता स्मृतास्तेषां होमि नो याज्ययाजिनः तेषां तु धर्मः सा धर्म्या स्मृताः सायुज्यगाद्विजैः ये चाप्याश्रमधर्माणां प्रस्थानेषु व्यवस्थिताः अन्ते नावसीदन्ति श्रद्धा युक्तास्तु कर्मसु तपःसा ब्रह्मचर्येण यज्ञेन प्रजया च वै श्राद्धेन विद्यया चैव प्रदानेन च सप्तधा कर्म स्वेदेषु ये युक्ता भवन्त्यादेहपादनाद् दैस्तृ साध सूक्ष्मज सोमया जन स्वर्गदे पितृवत्त उपास निवापे दु तत्कुन बंधु माधुजृति लंते सोमलौकिका मनुष्य मश्राद्धभुजस्तु तेभ्योपर तुप्यीर्नाकर्मयोनिषु भ्रष्टाचारधेभ्य स्वता स्वाहा विवर्जिता भिन्न देहादुरात् प्रदभुदा यमक्षये स्वकर्माण्यनुशोचन्तो यादनास्तानमागताः दीर्घायुषोदिशुष्काश्च श्मश्रुलाश्च विवाससः श्रुत्पिपासापरीताश्च विध्रवन्तस्ततस्ततः सरित्सरत् तडागानि वापीश्चाप्युपलिप्सवः परान्नानि च लिप्सन्धक्काल्यमानास्ततस्ततः स्थानेषुपात्यमानाश्च यादनाश्च पुनःपुनः शाल्मले वैतरण्याञ्च कुम्भीपाके तथैव करम्भबालुकायाञ्च असि पत्रवने तथा शिलासम्प्रेषणे चैव पात्यमाना पात्यमानास्वकर्मभिः तत्रस्थानां हि तेषां वै दुःखितानां मनाशिनां तेषां लोकान्तरस्थानां बान्धवैर्नामगोत्रतः भूमावसव्यं दर्भेषु दत्ताः पिण्डास्त्रयस्तु वै यान्दितास्तर्पयन्ते च प्रेतस्थानेष्वधिष्ठितान् अप्राप्ता यादनास्थानं प्रभ्रष्टाय च पञ्चधा पश्चाद्येस्तावरान्ते वै जादानीचैस्वकर्मभिः नानारूपास्तु जायन्ते तिर्यज्ञोनिष्वयोनिषु निश्व। यदाहारा भवद्यदे तासु तास्विहयोनिषु तदाहारे श्राद्धं दत्तं प्रतिष्ठते आले न्यायागदं पात्रे विधिना प्रतिपादितं प्राप्नोत्यन्नं यथा दत्तं त्यन्तुर्यत्राह्वतिष्ठते यथा गोशु प्रनष्ठामु वत्सो विन्ददिमातरम् तथा श्राद्धेषु दत्तान्नं मन्त्रः प्रापयदे पितृन् एवं ह्यविफलं श्राद्धं श्रद्धा दत्तं तु मन्त्रदः तत्तत्कुमारः प्रोवाच पश्यन् दिव्येन चक्षुषा गदा गदज्ञः प्राप्तिं श्राद्धस्य तैः बाह्लिकाश्चोष्मपाश्चैव दिवाकीर्त्याश्च दे स्मृताः कृष्णपक्षस्त्वहस्तेषां शुक्लस्वप्नाय शर्वरी इत्येते पितरो देवा देवाश्च पितरश्च वै ऋक्त्वार्थवार्धमासास्तु अन्योन्यं पितरस्मृताः इत्येतपितरो देवा मनुष्यपितरश्च ये प्रीतेषु तेषु प्रीयन्ते कर्मसु इत्येष विचयः प्रोक्तः पितॄणां सोमपायिनाम् एवं पितृसतत्त्वं हि पुराणे निश्चयं गतम् इत्यर्कपितृसोमानामैलस्य च समागमः सुधामृतस्य च प्राप्तिः पितॄणां चैव तर्पणं पूर्णामावास्य योः कालो यादनास्थानमेव समासात्कीर्तितस्तुभ्यमेष सर्गो मनातनः वैश्वरूप्यं तु सर्गस्य कथितं ह्येकदैशिकं न शक्यं परिसङ्ख्यातुं श्रद्धेयं भूतिमिच्छदा स्वायम्भुवस्य हि ह्येष सर्गक्रान्तो मया विस्तरेणानुपूर्व्या च भूय किं वर्णयाम्यहम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते द्वितीयेऽनुशङ्कपादे अमावास्याश्राधे वितृविचयो नामाष्टाविंशतितमोऽध्यायः ओ oh...